अथ द्व्यधिकशततमः सर्गः लक्ष्मणेन तु तद्वाक्यमुक्तम् श्रुत्वा स राघवः सन्दधे परवीरघ्नोधनुरादाय वीर्यवान् रावणाय शरान् घोरान् विससर्ज च मोमुखे अथान्यम् रथमास्थाय रावणो राक्षसाधिपः अभ्यधावत काकुत्स्थम् स्वर्भाणुरिव भास्करम् दश्रीव रथस्थस् वज्रोपम शर आजघानमशल धाराभिरीवत यद दीप्त पक सशर कांचन भूषण अभ्यपर्षद्रणे राश्रीवि भूमौ स्थित सेम से रथस्थ से रक्षस न समम् युद्धमित्याहुर्देवगम् धर्वकिन्नराः ततो देववरः श्रीमाञ्छुत्वा तेषाम् वचोमृतम् आहूय मातलिम् शक्रो वचनम् चेदमब्रवीत् रथेन नमम भूमिष्ठम् शीघ्रम् याहि रघूत्तमम् आहूय भूतलम् यातः कुरु देवहितम् इत्युक्तो देवराजेन मातलिर्देवसारथिः प्रणम्यशिरसा ततो वचनमब्रवीत शीघ्रम् यास्यामि देवेन्द्रसारथ्यम् ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ततः काञ्चन चित्राङ्गः वैदूर्यमयकूबरः सदश्वैः काञ्चनापीडैर्युक्तेतप्रकीर्णकैः हरिस् सूर्य सकाशर्ेम जाल विभूषितम वेणुध्वज श्रीमा देंराज रथो वर दिवराजे सन्दिष्टो रथ आतलि अभ्यवर्त काकुत्थमतीिविष्टपा अब्रवीच्य तारा सोदो रे स्थि प्राजलिर्मातिवाक्यं सहस्राक्ष सारथि सहस्राक्षेण काकुत्स्थरथोऽयम् विजयायते दत्तस्तव महासत्व श्रीमन्शत्रुनिबर्हणा इदमैन्द्रम् महच्चापम् महच्चापं चाग्निसन्निभम् शराश्चादित्यसङ्काशाशक्तिश्च विमला शिवा आरुह्येमम् रथम् वीरराक्षसम् जहिरावणम् मया सारथिना देव महेन्द्र इत्युक्तः परिक्रम्य रथं तमभिवाद्यच च आरुरोहतदा रामो लोकान् लक्ष्म्या विराजयन् तद्बभौ चाद्भुतम् युद्धम् द्वैरथम् रोमहर्षणम् रामस्य च महाबाहो रावणस्य च रक्षसः स गान्धर्वेण गान्धर्वम् दैवेन राघवः अस्त्रम् राक्षस राजस्य जघानपरमास्त्रवित् अस्त्रम् तु परमम् घोरम् राक्षसाधिपः ससर्ज परमक्रुद्धः पुनरेव निशाचरः ते रावणधनुर्मुक्ताः शराः काञ्चन भूषणाः अभ्यवर्तन्त दीप्त काकुत्स्थम् सर्पा ते दीप्तवदनादीप्तम् वमन्तोज्ज्वलनम् मुखैः राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः तैर्वा सुखि समस्पर्शैर्दीप्तभोगैर्महाविशैः दिशश्च सन्तताः सर्वा विदिशश्च समावृताः तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे अस्त्रम् गारुत्मतम् घोरम् प्रादुश्चक्रे भयावहम् ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखि प्रभाः सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ते तान् सर्वाञ्छराञ्जघ्नः सर्परूपान् महाजवान् सुपर्णरूपा रामस्य विशिखाः कामरूपिणः अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः अभ्यवर्षत्तदा रामम् घोराभिः शरवृष्टिभिः ततः राममक्लिष्टकारिणम् अर्दयित्वा शरौघेण मातलिम् प्रत्यविध्यत चिच्छेदकेतुमुद्दिश्य शरेणैकेन रावणः पातयित्वा रथोपस्थे रथात् केतुम् च काञ्चनम् ऐन्द्राणपि जघानाश्वाञ्छरजालेन रावणः रामचन्द्रमसन्दृष्ट्वा ग्रस्तं रावणराहुणा प्राजापत्यम् च नक्षत्रम् रोहिणीम् समाक्रम्य बुधस्तस्थौ प्रजानामहितामहः सधूमपरिवृत्तोऽर्म्यः प्रज्वलन्निवसागरः उत्पपात तदा क्रुद्धस्पृशन्निव दिवाकरम् शस्त्रवर्णः सुपरुषो अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना कोसलानाम् च नक्षत्रम् व्यक्तमिन्द्राग्निदैवतम् आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे दशास्यो विंशतिभुजः प्रगृहीत शरासनः अदृश्यत दशग्रीवो मैनाक इव नाशक्नोदभिसन्धातुम् सायकान् रणमूर्धनि सकृत्वा भ्रुकुटिम् क्रुद्धः किञ्चित् संरक्तलोचनः जगामसु महाक्रोधम् निर्दहन्निवराक्षसान् तस्य क्रुद्धस्य सर्वभूतानि वित्रे सुः प्राकम् सिंहशार्दूलवाञ्छैलः सञ्चचालचलद्रुमः बभूवचापि क्षुभितः समुद्रः सरिताम् पतिः खराश्च खर वित्रेषु सर्वभूतानि रावणस्याभवद्भयम् विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ऋषिदानपदैत्याश्च गरुत्मन्तश्च खेचराः दृशुस्ते तदा युद्धम् लोकसंवर्तसंस्थितम् नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुध्यतोः ऊचः सर्वे तदा विग्रहमागताः प्रेक्षमाणा महायुद्धम् भक्त्या प्रहृष्टवत् दशग्रीवम् जयेत्याहुरसुराः समवस्थिताः देवा राममथो चुस्ते त्वम् जयेति पुनः पुनः एतस्मिन्नन्तरे क्रोधाद्राघवस्य शरावणः प्रहर्तुकामो दुष्टात्मा स्पृशम् प्रहरणम् महत् वज्रसारम् महानादम् सर्वशत्रुनिबर्हणम् शैलशृङ्गणिभैः कूटैश्चित्तदृष्टिभयावहम् स धूममिव तीक्ष्णाग्रम् युगान् ताग्निचयोपमम् कालेनापिदुरासदं त्रासनं सर्वभूतानां त्रासनम् भेदनं तथा प्रदीप्त इव रोषेण शूलम् जग्राह रावणः तच्छूलम् परम समुद्यम्यमहाकायो ननादयुधिभैरवम् संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन् पृथिवीम् चान्तरिक्षम् च दिशश्च प्रदिशस्तथा प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः अतिकायस्य नादेन तेन तस्य दुरात्मनः सर्वभूतानि वित्रे सागरश्च प्रचुक्षुभे स गृहीत्वा महावीर्य शूलम् तद्रावणो महत् विनद्य रामं रामम् परुषमब्रवीत् शूलोऽयम् वज्रसारस्ते रामरोषाण्मयोद्यतः तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति रक्षसामद्यशूराणाम् निहतानाम् च मोमुखे त्वाम् निहत्यरणश्लाघिम् करोमि तरसा समम् तिष्ठेदानीम् निहन्मित्त्वामेष शूलेन राघवा एवमुक्त्वा स चिक्षेप अष्टघण्टम् महानादम् वियद्गतमशोभत तच्छूलम् राघवो दृष्ट्वा ज्वलन्तम् घोरदर्शनम् ससर्जविशिखान् रामश्चापमायम्यवीर्यवान् आपतन्तम् शरौघेण वारयामास राघवः उत्पतन्तम् युगान्ताग्निम् जलौघैरिव वासवः निर्ददाहसतान् बाणान् रामकार्मुकनिःसृतान् रावणस्य महान् छूलः पतङ्गानि वपावकः तान् दृष्ट्वा भस्मसाद्भूताञ्छूलसंस्पर्शचूर्णितान् सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् सताम् मातलिनानीताम् शक्तिम् वासवसम्मताम् जग्राहपरमक्रुद्धो राघवो रघुनन्दनः सा बलवता शक्तिर्घण्टा नभ प्रज्वालास युगा सभा सा क्षिप्ता राक्षसेन्द्र से तस्ंचूल पिन्न शक्तिया महाूलो निपत ग्युतिद तथा बाणर्हयान महाजवान्मस्तीक्षणर्मेगर्वज्रकलर राघवः परमायत्तो ललाटे पत्रिभिः स्त्रिभिः सशरैर्भिन्न सर्वाङ्गो गात्र प्रसृतशोणितः राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ स रामबाणैरतिविद्ध गात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः जगामखेदम् च समाजमध्ये इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यधिकशततमः सर्गः